मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं ट्वेण्टि टु जडभरतचरितं श्रीगणेशाय नमः मुद्गल उवाच तद आङ्गिरसो योगी विचचारमहीतले मयूरेशस्य सक्षेत्रम् आययौ दैवयोगदः तत्र पूर्वावतारं च गणेशस्य महात्मनः दृष्ट्वा ज्ञात्वा स्थितस्थम् सध्यायनेकत्र मूढवद वर्षमात्रेकदेतस्य दर्शनार्थं व्ययौ स्वयं गणेशो मूषकारूढसिद्धिबुद्धिसमन्वितः तम् दृष्ट्वा प्रणनामादौ तुष्टावप्राञ्जलिः प्रभुं साश्रु साश्रुनेत्र स भक्तिभावनिमज्जिदः जडभरद उवाच नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे विघ्नेशाय नमस्तुभ्यां हे रम्भाय नमो नमः सिद्धे पद से ते भक्ता भयभंचना भक्ति प्रियाय वैतुभ्यं भक्तभक्ताये नम बुद्धे पदे धो धात्रेद्यात्म ज्ञानूप्रकाय गणेशा नमो नम मूषकारूढवैतुभ्यं चतुर्बाहुधराय च स्वानन्दवासिने देववक्रतुण्डाय ते नमः नानाविहारयुक्ताय नन्दरूपाय ते नमः अमेयाय सदा योगशान्धिस्थाय नमो नमः धन्योऽहं कृतकृत्योऽहं यन दृष्टो गजाननः वेदादौ गोचरोऽयं न कृपया सहसागतः मया किं ते कृतं देवदर्शनार्थं किमागतः भक्त्या समं न किञ्चित् ते प्रियं ज्ञातं मयाधुना भक्त्या त्वां हृदि सन्ध्यायन्संस्थितो जडवत्प्रभो त्वमेव मोहितो भक्त्या मम सन्निधिगकृतः अहो भक्तिसमं किञ्चिन्नैव दृष्टं न च श्रुतं यया त्वं शान्तियोऽगस्तो मोहितः सहसागतः त्वदीयां च सकलं ब्रह्मनायक किं ददामि गणेशान येन तुष्टो भविष्यति अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः वरं देहि महाबाहो येन तृप्तो भवाम्यहम् भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जितां देहि नाथदयासिन्धो नान्यत् नान्यत्याचे कदाचन एवमुक्त्वा गणाध्यक्षं ननामस पुनःपुनः प्रेम्णा ननर्तयोगीन्द्रस्तमुवाच गणाधिपः गणेश उवाच भविता सुदृढा भक्तिर्ममते मुनिसत्तमव्यभिचारविहीना ते न मुनि चाङ्गिरस संशयः त्वया कृतमिदं स्तोत्रं मदीयं योगशान्दिदं भविष्यदि महाभागमम प्रीतिकरं परम् यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः शृणुयातस्य तद्वच्च भविष्यदि न संशयः एवमुक्त्वार्दधेसौ गणनाथः प्रजापदे संस्थितः अन्धे गणेशरूपोस्सौ जातो योगीन्द्रसप्तमः गुहा तत्र प्रसिद्धा वै वर्तदेद्यमहामुनेः गणेशोत्तरभागे च सम्मुखे क्रोशदूरकं स्थानमाङ्गिरसस्यापि भरतस्य जडात्मनः कुर्वन्ति दर्शनं तस्य तत्र ये मानवादयः तेषां मुक्तिर्भवद्दक्ष शाश्वती नात्र संशयः चरितं भरतस्येदं कथितं परमाद्भुतं शृणुयाद्यो नरोभक्रिया पठेद्वा भुक्तिमुक्म् येव एवमाद्याश्च राजानः प्रियव्रतकुले भवन् उत्पन्ना सर्वधर्मज्ञानादेवपरायणाः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे द्वितीये खण्डे एक दंत भरत चरीते ओम